पाञ्चालान्येन सङ्ग्रामे भीमसेनोजयत् प्रभुः प्रत्यषेधद्बहूनेकः सपत्नाश्चैव दिजये निशं ययस्य विस्फारं यद्रवन्तरणात्परे पर्वतस्येव जीर्णस्या विस्फोटमठनेरिव सैन्धवं येन राजानं पर्यामृषितवानथ तस्य मौर्वीमपाकर्षच्छूरः सङ्क्रन्दनो युधिः कुले नास्ति समो यस्येति न कुलस्मृतः दक्षिणां दक्षिणाचारोऽयेन जयत्प्रभुः अपद्यमकरो वीरः सह देवस्तदायुधम् खड्गांश्च दीप्तान् दीर्घांश्चाकलापांश्च आरुह्येमांशमी वीराधनुंशेतानि निक्षिपा तामुपारुह्य नकुलो धनुंसि यानि तस्यावकाशानि दिव्यरूपाण्यमन्यत यत्र चापश्य तथवै तिरो वर्षाणि वर्षति तत्र तानि दृढैः